वास्तविकः ज्ञानी कणादः कश्चन महर्षिः सः परोपकारी सहृदयश्च आसीत् सः महर्षिः चन्दनपुरनगरात् बहिः कुटीरे वसति स्म स्वसमीपम् आगतान् जनान् उपदिशति स्म च तस्य कीर्तिः सर्वत्र प्रसृता आसीत् सुदूरतः अपि जनाः महर्षेः दर्शनाय आगच्छन्ति स्म महर्षिः कणादः तत्रैव कश्चित् आश्रमं निर्माय शान्त्याश्रमः इति तस्य नाम अकरोत् अनेके जनाः तस्य शिष्याः सञ्जाताः दिने दिने तस्य शिष्याणां सङ्ख्या वर्धमाना आसीत् महर्षेः कणादस्य प्रसिद्धिः तत्रत्येन राज्ञा अपि ज्ञाता सः अपि तस्य दर्शनलाभं प्राप्तुम् इष्टवान् अतः सः मन्त्रिणम् आहूय भवान् सेवकैः सह तत्र गत्वा महर्षिं सादरं राजभवनं आनयतु अहं तस्य दर्शनकाङ्क्षी अस्मि इति आदिष्टवान् ततः मन्त्री रथम् आरुह्य सहितं आश्रमं गतवान् महाराजस्य सन्देशं महर्षिं कणादं निवेदितवान् नाहं राजदर्शनोत्सुकः यदि महाराजः मम दर्शनम् इच्छति तर्हि सः स्वयमेव अत्र आगच्छतु भोः महर्षे यदि भवान् न आगच्छति तर्हि नैव यदि भवन्तः मां बलात्कारेण तत्र नयन्ति तर्हि तु उपमाननं कृतं भवेत् इति उक्तवान् महर्षिः ततः मन्त्री राजभवनम् आगत्य सर्वं वृत्तान्तं महाराजं निवेदितवान् तर्हि अहं स्वयमेव तस्य समीपं गच्छामि इति निश्चित्य महाराजः सेवकैः सह आश्रमं प्रतिप्रस्थितः। प्रस्थितः तत्र गत्वा च महर्षिं नमस्कृत्य महर्षे भवतः दर्शनेन धन्यः अभवम् इति उक्तवान् ततः सेवकानां द्वारा नितानि वज्रवैडूर्यादिभिः पूर्णानि पात्राणि दर्शयन् कृपया एतत् लघु उपायनं स्वीक्रियताम् इति महर्षिं निवेदितवान् महाराज किमर्थम् एतत् उपायनं मह्यं ददाति इति पृष्टवान् महर्षिः महर्षे बहूनां मुखतः भवतः ज्ञानस्य परोपकारस्य च विषये मया बहुधा श्रुतम् अस्ति तादृशस्य ज्ञानिनः सम्माननं मम धर्मः एतद्धनं भवतः आश्रमस्य विकासाय अन्यविधसत्कार्याय च विनियुक्तं भवतु इति महाराजः पुनः उक्तवान् परन्तु महाराज मया एतद् उपायनं न स्वीक्रियते इति महर्षिः दृढस्वरेण उक्तवान् किमर्थम् इति विस्मितः महाराजः पृष्टवान् महाराज जनानां वचनं श्रुत्वा भवान् मम विषये एवम् अभिप्रैति यदि जनाः मम विषये दुर्वचनानि अवदिष्यन् तर्हि तत्र विश्वस्य भवान् मह्यं दण्डनम् अदास्यत् केवलं कर्णाभ्यां श्रुतेषु वचनेषु विश्वस्य यः उपायनं ददाति तस्य उपायनं न स्वीकरोमि अहम् इति विनयपूर्वकम् उक्तवान् महर्षिः एतत् श्रुत्वा महाराजः आश्चर्येण महर्षिमेव अपश्यत् एषः महर्षिः वास्तविकः महाज्ञानी इति इदानीं महाराजः ज्ञातवान् तस्य चरणयोः साष्टाङ्गम् नमस्कृतवान् च